अथ द्विसप्ततितमः सर्गः अपश्यम् सुततस्तत्र पितरम् पितुरालये जगामभरतो द्रष्टुम् मातरम् मातुरालये अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् उत्पपात तदाहृष्टा त्यक्त्वा सौवर्णमासनम् स प्रविश्यैव धर्मात्मा स्वगृहम् श्रीविवर्जितम् भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ तन्मूर्ध्नि भरतमारोप्य प्रष्टुम् समुपचक्रमे अद्यते कतिचिद्रात्र्यश्चु तस्यार्यकवेश्मनः अपि प्रवासार्चसुखम् पुत्र सर्वम् मे वक्तुमर्हसि एवम् पृष्टस्तु कैकेय्या प्रियम् पार्थिवनन्दनः आचष्टभरतः सर्वम् मात्रे राजीवलोचनः अद्य मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनः अम्बायाः कुशलीतातो युधा जिन्मातुलश्च यन्मेधनम् च रत्नम् च ददौ राजा परन्तपः परिश्रान्तम् पथ्यभवत्ततोऽहम् पूर्वमागतः राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः यदहम् प्रष्टुमिच्छामि तदम् वा वक्तुमर्हति शून्योऽयम् शयनीयस्ते पर्यङ्को हेमभूषितः न चायमिक्ष्वा कुजलः प्रहृष्टः राजा भवति भूयिष्ठमिहाम्बाया निवेशने तमहम्नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः पितर्ग्रहीष्ये पादौ च तम् ममाख्याहि पृच्छतः आहोस्विदम्बा ज्येष्ठायाः कौसल्याया निवेशने तम् प्रत्युवाचकैकेयीप्रियवद्घोरमप्रियम् अजानन्तम् प्रजानन्ती राज्यलोभेन मोहिता या गतिः सर्वभूतानाम् ताम् ते पिता राजा महात्मा तेजस्वी यायजूकः सताम् भरतो वाक्यं धर्माभिजनवाञ्छुचिः पपातसहसा भूमौ पितृशोकबलार्दितः हा हतोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् निपपातमहाबाहुर्बाहू विक्षिप्य वीर्यवान् ततः शोकेन संवीतः पितुर्मरणदुःखितः विललापमहातेजाभ्रान्ताकुलितचेतनः एतत् सुरुचिरम् तदिदम् न विभात्यद्य विहीनं तेन धीमता व्योमेव शशिनाहीनमप्शुष्क इव सागरः बाष्पमुत्सृज्य कण्ठेन स्वात्मना परिपीडितः प्रच्छाद्यवदनम् श्रीमद्वस्त्रेण जयताम्बरः तमार्तम् देव सङ्काशम् समीक्ष्य पतितम् भुवि निकृत्तमिव सालस्य स्कन्धम् परशुना माता मातङ्गसङ्काशम् चन्द्रार्कसदृशम् सुतम् उत्थापयत्वा शोकार्तम् वचनम् चेदमब्रवीत् उत्तिष्ठोत्तिष्ठ किम् शेषे राजन्नत्र महायशः शोचन्ते सन्तः सम्मताः दानयज्ञाधिकारा हि शीलश्रुतितपोऽनुगा बुद्धिस्ते प्रभेवार्कस्य मन्दिरे सरुधित्वा चिरम् कालम् भूमौ परिविवृत्य च जननीम् प्रत्युवाचेदम् शोकैर्बहुभिरावृतः अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यते इत्यहम् कृतसङ्कल्पो हृष्टो यात्रा मया शिषम् तदिदम् ह्यन्यथाभूतम् यवदीर्णम् मनो मम पितरम् यो पश्यामि नित्यम् प्रियहिते रतम् अम्बकेनात्यगाद्राजाव्याधिनामय्यनागते धन्यारामादयः सर्वे यैः पिता संस्कृतः स्वयम् ननोऽनम् माम् महाराजः प्राप्तम् जानादिकीर्तिमान् उपजिघ्रेत्तु माम् मूर्ध्नि तातः सम्नाम्य यो हि माम् रजसा ध्वस्तमभीक्ष्णम् परिमार्जति यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि सम्मतः तस्य माम् शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः तस्य पादौ ग्रहीष्यामि स गतिर्मम धर्मविद्धर्मशीलश्च महाभागो दृढौ रतः वार्ये किमब्रवीद्राजा पिता मे सत्यविक्रमः पश्चिमम् साधु सन्देशमिच्छामि श्रोतुमात्मनः इति पृष्टा यथा तत्त्वम् कैकेयीवाक्यमब्रवीत् रामेति राजा विलपन्हासीते लक्ष्मणेति च समःत्मा परम् लोकम् गतो मतिमताम्बरः तीमाम् पश्चिमाम् वाचम् व्याजहारपिता तव कालधर्मं परिक्षिप्तः पाशैरिव महागजः सिद्धार्थास्तु नराराममागतम् सह सीतया लक्ष्मणम् च महाबाहुम् द्रक्ष्यन्ति पुनरागतम् तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् विषण्णवद नो भूत्वा भूयः पप्रच्छमातरम् क्वचेदानीम् स धर्मात्मा कौसल्यानन्दवर्धनः लक्ष्मणेन सह च समागतः तथा पृष्टा यथा न्यायमाख्यातुमुपचक्रमे मातास्य युगपद्वाक्यम् विप्रियम् प्रियशंसया स हि राजसुतः दण्डकान् सह वैदेह्या लक्ष्मणानुचरो तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया स्वस्य वंशस्य माहात्म्याद्भ्रष्टुम् समुपचक्रमे कच्छिन्न ब्राह्मणधनम् हृतम् रामेण कस्यचित् कच्छिन्नाढ्यो दरिद्रो कस्मात्सदण्डकारण्ये भ्राता रामो विवासितः तथा स्य च पलामात तत्स्वकर्म यथा तथम् तेनैव स्त्री स्वभावेन व्याहर्तुमुपचक्रमे एवमुक्ता तु कैकेयी भरतेन महात्मना उवाच वचनम् हृष्टा वृथा न ब्राह्मणधनम् किञ्चिद्धृतम् रामेण कश्चिन्नाढ्यो दरिद्रो वा तेना पापो विहिंसितः न रामः परदारान् स चक्षुर्भ्यामपि पश्यति मया तु पुत्रश्र्वत्वैव रामस्येहाभिषेचनम् याचितस्ते पिता राज्यम् रामस्य च विवासनम् स स्ववृत्तिम् समास्थाय पिता ते तत्तथाकरोत् रामस्तु सः सौमित्र्यः प्रेषितः सह तम पश्यन् प्रियम् पुत्रम् महीपालो महायशाः पुत्रशोकपरिद्यो नः पञ्चत्वमुपपेदिवान् त्वया त्विदानीम् धर्मज्ञराजत्वमवलम्ब्यताम् त्वत्कृतेः मया सर्वमिदमेवम्विधम् कृतम् मा शोकम् मा च सन्तापम् नगरी राज्यम् चैतदनामयम् तत्पुत्र शीघ्रम् विधिना विधिज्ञैर्वसिष्ठ मोक्ष्यैः सहितो द्विजयेन्द्रैः सङ्काल्य राजानमदीन सत्त्वमात्मानमुर्व्यामभिषेचयस्व इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विसप्ततितमः